अथ तृतीयकाण्डे चतुर्थः प्रश्नः प्रारम्भः हविरतिलिच्य देसोर्य देवादिविशध्य इत्याह बृहस्पतिना चैवास्य प्रजापतिना च यज्ञस्य व्युर्धमपि रक्षागुं शिवा एतत्पशुगुंसचन्तेकदेवत्या आलब्धो या यस्यास्ते हरिता गर्ध इत्याहदेवत्रैवै नाङ्गमय निरक्षतामपहत्या आवर्तनवर्तयेत्याह ब्रह्मणैवमावर्तये दवितेऽभिरी ै तदुरत्रस विश्वरूप इन्दुरीत्याः प्रजा वै पशुव इन्दुः प्रजयैवेशुभिः समर्थयति दिवं वै यज्ञस्य व्यर्थं गच्छति पृथिवीमतिरिक्तं दद्यन्न शमयेदात्माक्षेत्यजमानो महेत्यो पृथिवीजनैत्याहत्या वा पृथिवे यज्ञस्य व्यर्थञ्चातिरिक्तं च शमयदिनात्यमाच्छति वा योर्पा एषो नेदधिगत्वेनाभ्ये पुशरालब्धस्य नावत्ये पुरस्तान्नाभ्यान्येदुपरिष्टादन्यत्पुरस्ताद्वैनाभ्ये प्राण उपरिष्टादपानो यावानेव पुशस्तस्या वद्य विष्णवेष्टाय युहो दियद्वै यज्ञस्यादिच्यते यः पशुर्भमाया पुष्टिस्तत् विष्ण विष्टातिरिक्त एवातिरिक्तम् दधात्यतिरिक्तस्य शान्त्या अष्टाक्रोक्षण्यम् दक्षिणाष्टावदेह्येषात्मानवशाप्त्या अन्तरकोषवृष्टेशेनाविष्टितम् भवत्येवमिवमिव जन्मे मास्ति मया पशुस्तमात्त्वा आवायो भोषसुजि बाहुपनः सहस्रम् दे नियतो विश्ववारा उपो देऽन्धो मध्यमयाभियस्य देवदधिषे पूर्वपेयम् त्वा कामाय त्वा समर्धे त्वा स्वाहा विदे प्राणम् वायवे स्वाहा विदे चक्षुशोर्याय स्वाहा विक्रीडादे श्रोत्रम् जावापृथिवेहा विगुं सरस्वत्ये स्वाहा त्वन्दरीया वशनीवशामनसागर्भयत् वशात्मम् वशनी गच्छ देवान् सदा सन् कामाः पृथिव्यागोदीर्थान्तरिक्षमुपदिष्ठस्व निमिते बृहत्थाः त्वन्दम् तन्वन्नजसा पाणमन्महिष्मतः रक्षधिया कृता अनर्पणम् यथच वामवामनया दैव्यञ्जनम् मनसा हर से प्रजापते नात्राण गात्रो गात्र भूयास्म इमे वै सहान्ते वायव्यमारक्रंराज्ञेयमष्टाकपालमश्च्यन्य मानभमानाग्यमष्टाकपालं पुरस्तान्यर्भवेदग्ने वैराम्रियामस्मात् वायव्याय इमे वा दिव्याय स्वामप्राजनय दग्निरक्रदस्मादग्नि सोमीयाय धनयोर्वियत्या रागवदत्तस्मात् सारस्वतीय प्रजापतिरत्नैरस्माप्राजापत्या दा वा एषा सर्वदेवत्यावशा वा यव्यामालभेत भूतिकामो वायुर्वै क्षेविष्ठा देवता ृथिव्या मालभेदृशमानः प्रतिष्ठा कामो दिवस्मै पत्ये सोमेत्यज्ञ नैवान्नमवृन्ते सोमे मान्नाद्यवान्नादो भवति सारस्वती मानभेदयैश्वरभाचवरी सरस्वती ेवभेदयः कामयेतानभिजितमभिजये प्रजापति सर्वा देवताजितमभिजयपाकरोति वायोध्यालभतः कामायजुरेवैदत्तिक्रीडाकारं ज्योतिक्रीडाकारेण वैद्याम्याश्रा ्यास्पदं दयत्रिक्रीडाकारं ज्योतिग्राम्याणां पशूनां नृत्ये प्रयत् न्योति वन्दे वैनागोसमर्थं लोकङ्गमे दृत्वं ध्वरीया वशिनी वशा वेत्यामे दृत्यामानस्य कामादित्या ऐश्वनस्येदनार्थं गच्छति तस्मादेवमाहाजाचरिष्टेत्या ष्ठा बृहद्भास्मे लोके ज्यो दुर्दशान्त हेमानेवास्मे लोकाञ्जोन्पणं वय तजोगवाम वैत्याहय नैवस्यैवैशान्धर्मजनया दैव्यञ्जनमित्याहमानव्यो मयिता ैवा एतस्या एकमेवादेव रञ्जनारब्धायामप्रदाब्धायामप्रस्यादस्वा प्रवेशयेत् सर्वां वा प्राश्नीया प्रवेशेषु सर्वामेव प्राश्नीयान्द्रियमेवात्मन् वा एषा त्रियाणामेवावर्तते या चित्तश्चाकोदञ्जाकोतिश्च विज्ञानञ्जमनस्यैश्च दर्शश्च पूर्णमासस्य प्रजापदृत्यन्द्राय वृष्णे प्रायच्छदुग्रुतमाच्यैस्मेवासुराः संयक्ताः सन् जाप्रजमपाधा तस्मा एताञ्जयान् प्रायच्छत्तानज होत्रो वै देवासुरानेन दे प्रत्ययानाञ्जय स्वर्गस्पर्धमाने दे दे अग्निर्भूतानामधिपतिः समावतीन्द्रमा नक्षत्राणां बृहस्पतिसत्यानां वरुणोपागो समुद्रोत्यां राज्यानामधिपतिनागो ऋद्रपुषोनां मिष्टा रूपाणां मिष्टपर्वतानां पितरः पि रामः परे वर्हेतदास्तदावता अस्मिन् कर्मण अस्मिन् क्षत्रे स्यामाशिष्यस्याम् पुरोधायामस्मिन् कर्मणस्याम् देवो पर्वदते देवा एतानभ्या दानानपश्यन्तानभ्यासन्मद यद्देवानां कर्म वेदार्ज्यदसुराणान्मददार्जदयेन कर्मणेत्तत्रय कर्मणायद्विश्वे देवा समपरन्तस्मादभ्या दानावैश्वदेवाय प्रजापदज्ञयान् रायच्छत्तस्माज्ञया प्राजापत्याय राष्ट्रवृद्धिरा राष्ट्रमादद तत्राभृतागो राष्ट्रभृतं दे देवाभ्याताने रसुरानप्यादन्वदतैर्जयन्ता प्रभृद्भि राष्ट्रमादद तदेवाभ्याताने रसुरानभ्यादन्वदभ्यादानानामभ्यातानत्वय्यजैरजयन्तजया राञ्जलयत्वय्यत्रा प्रभृद्भि राष्ट्रमादद तत्राष्टभतायो राष्ट्रभृतं ददा देवान्वराष्ट्रायो भ्रातृवां स्याक्षेताञ्जल ैरेव भ्रातृम् यादभ्यातैतराष्ट्रमृद्ध्यै राष्ट्रमादत्ते भवत्यात्मना भ्रातृम् यो भवति श्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यरसो भेरया सामान्यसामन्वय विश्वपातो गन्धर्वस्तस्यापरिगृहाय चोषकौ सुवीर्यको संवत्सरेस्तिम् परमेश्वर्गन्धर्वस्तस्य विश्वमस्वभोधर्वेत्युर्गन्धर्वस्तस्य जयन्तेर्नामस इदम् ब्रह्मक्षत्रं वाजता इदम् ब्रह्मक्षत्रं वा तदस्मे स्वाहा समाभवनस्य पदे यस्य उपरि युब्रह्मणे स्मे क्षुत्राय शन्म यच्छ ष्ट्रकामाय वव्या राष्ट्रम् वीरा प्रभृतो राष्ट्रे नैवास्मि राष्ट्रमवृन्धे राष्ट्रव्या राष्ट्रम् वीराः प्रभृतो राष्ट्रम् प्रजा राष्ट्रम् वसवो राष्ट्रेष्ठ भवति राष्ट्रेणैव राष्ट्रमवृन्धैव समानानाम् भवति क्रामकामाय वव्या राष्ट्रं वीराः प्रभृतो राष्ट्रंसजाता राष्ट्रे नैवास्मि राष्ट्रगंस रुन्धे ग्राम्येव भिदेवनेवन एवास्मै च जातानवरुन्धे नवरुद्धा ओजन्दे रथग ओजस्यामस्य ओजो मय राष्ट्रहृत ओजो रथ ओजैवा स्म ओजो वरुन्ध ओजस्येव भवष्ट्रादवस्मैव्यायामन्दो रथास्यस्तान् दूया गृह्मिति राष्ट्रमेवास्मै प्रत्याहृदय वा एतस्या यस्य राष्ट्रं न कल्पतेश्वरथस्य रक्षणं चक्रं द्रवृश्य नाडीमविजो यादाहुमाना राष्ट्रमे राष्ट्रभृतो राष्ट्रे देव्यायच्छन्देन गौर्वस्यैव भवतिङ्गारा एव मित्रा नामस्य सेना ष्टयन्द्रिय उन्माद्येत्तस्मै ह दव्यागन्धर्वात् सर्व वा एतमुन्मादयन्द्रिय उन्माद्ये सर्वैगन्धर्वात् सर्वत्रा योधौ ग्राहत्य सरसा गृहास्वैनायतने शमयत्य पितरता प्रति प्राणानेवास्य प्रतियोप्रधरे वैतैनिगृदिगृ एव च क्रोरन्देनकरा च एव क्रोरेण प्रवृस्यति ताजगाद्यमाच्चामयेत्तानानिपद्यीया प्रजापदर्वैभवनस्य पदप्रजापदने स्यान्नाद्यमादाय प्रयच्छन्ति ज्येष्ठबन्धरस्यात्तस्थलेवदाय ब्रह्मो श्वरामो भवति दिक्ष्वेव प्रतिष्ठदिक्षे भवति चमेवास्मिन् दधाच्युद्धरदिश धत्त्वायविश्वान् भवति मे धत्वाय चत्वार आदिशेयाप्रास्म्यन्ति दिशामेव ज्योतिष देवि का निर्ववे प्रजाकामश्चन्दागोविकाश्च प्रजाभिरेवस्मिन् राजेराकान्द निर्ववेत् कुशकामश्चन्दागोविकाच्छन्दागो श्रीवखल वै कुश्छन्दोभिरेवास्मि छन्दोभिदेवास्मै ग्रामरुन्धे मध्यतो एतस्याेता एव निर्वभेत्यप्रथमं धातारङ्गराजिम एवास्मै त्येता एव निर्मेदी जानीदेष्टा देवा श्रीछन्द्रानुमत्येता एव निर्मेद्यं मेधानापनमे श्रीदेविच्छन्दागुं श्रोमन्दियं मेधानातारं करो स्मै छन्दागुंसिन्दागुंसीदेविकाश्छन्दागुं श्रीवखरुच्छन्दाभिरेवास्मिन्दधातारङ्गत एवका जगती ष्टाक्षरागायित्वेकादशित्या प्रजापतिधातावषट्कार एतद्वै देविश्चेदीश्वरा वास्तो प्रतिजाने यस्मान्नास्तोष्पदे शक्ष्मया सुमहिरन्मया घातुमत्या आेम उत योगेवरन्ना योजयम् पारस्वस्तिभिः सायं प्रात्याचेष्टका एवपधत्ते यजमानोः रात्राणि वा एतस्येष्टकायाहिताष्टकान् कृत्वोपधत्ते दशमानत्रिशाक्षराग्राजमेवाप्ष्टकान् कृत्वापधत्तेश्चित्यस्य भवति तस्मात् यत्र खलवे स्वास्तोया स्तोष्पदीयम्भागधेयेन गो शमयदिनात्यमाच्छदीयमा न्युज्ञे जोयाच्चप्रया देवास्तावाहुसिन्धोज धादृगेवदजयुज्ञे जोयाच्चाक्षय महाहुसिन्धुरोदृगेवदहतस्य वा स्तोष्पदीय स्यायुक्तो भवति सव्यो युक्तोैशमय देकयाजुहयाचर्विहोजुः समारोह इत्येष ेवैः समारोहय समारोहो नेत् पुनराजे यस्यादित्यात्मन् समारोहयते यजमानो नियामेवै निजोन्यागो समारोहयते तमज्ञे बृहत्वया दृहा ोत्र बृहस्पतिः ब्रह्मा देवानाम् पदवी क्रमेनाम् शुप्राणाम् श्येनावृद्रा नागस्वनागो स्वाम पवित्रमध्ये भ वर्तमानो निवेशयम् नमसम्मर्त्यम् च हरण्येन सवितारसेन देवो यादिभो दे न विपश्यन् यथा नो अतिधिकरत्मश्वेनुभ्यो यथा भागवे यथा लोकायि रुद्रियम् मास्तोकेतन हेमान आयुषमानो कोषमानो अश्वेषुरीरिषः वीरान्मानो रत्रिभ्रजानादन्दा बृहस्पतिमध्यक्षामन्मयान् बृहस्पतिरभिकनिक्रद्यावतप्रास्तोयो रो सजित्वानगो सराजहम् हरिष्ठमोदये पराष्टस्य इन्द्रापरदक्षिणे नाम सिन्धो नाम इन्द्रजेकृतो विश्वेभरे ज्येष्ठस्य मन्द्रो विश्वदर्शने ्रतम् मानस्तस्मादेन स देवनीर्य सत्यमुतयन्न विद्मा सर्वमवरुणः इति तृतीयकाण्डे चतुर्थः प्रश्नः समाप्तः